हरि ओम् तदेवाग्निस्तदादित्यस्तद्वायुस्तदृश्रमा तदेव शुकुरान्त ब्रह्मता आपः सुप्रजापतिः सर्वे निमेकाचन्निरय विद्युतः पुरुषा दधि नैनम् वध्वन्न त्रिजञ्चन्न मध्ये परिजग्रभत न प्रतिमा अस्ति यस्य नाम मध्यशः किरण्यगर्भ इत्येख माहिसीदित्येका यस्मान्न जात इत्येकः एकोह देवः प्रविशोऽनुसर्वाः पूर्वो हातः स उ गर्भे अन्तः स एव जातः स जनिक्यमाणः प्रत्यञ्जनास्तिष्ठति सर्वतोमुखः यस्माज्जातान्न पुरा किञ्चनैव आबभूव भुवनानि विश्वा प्रजापतिः प्रजया सराणस्त्रीणि ज्योतियङ् स खोडशी जेन द्यौ रुग्रामीचाजेन स्वस्थभितञेन नाकः जो अन्तरिक्षेरजसु विमानः कस्मै देवायः विकाभिम जङ्क्रन्दसि अवसात् स्तभानि अभ्यञ् मनसारे जमानि जत्राधिसून उदितो विभाति कस्मै देवाय विकाभिध आपो वजद बृहतीरजश्चिदापः वेनस्तत्पश्यन्निहिताम् गुहासज्जत्र विश्वम् भवत्ये कनीडम् तस्मिन्निदग् सञ्चव्यचैति सर्वज्ञ स ओतः प्रोतश्च विभूः प्रजासु प्रसदवो चेदमृतान् विद्वाङ्गन्धर्वो धाम विभृतङ्गुहासत् त्रीणि पदानि निहिता भुवास्य जस्तान् वेद सपितुः पितासत् स नो बन्धृज नितासविधाता धामान् वेद भुवनान् विश्वा यत्र देवा अमृतमानशानास्त्रितीये धामन्नध्यैरयन्त परियत्य भूतानि परिहत्य लोकान् परियत्य सर्वाः प्रदिशो दिशश्च उपस्थाय प्रथमजामि तस्यात्मनात्मानमभि संविवेश परिद्या वा पृथिवी सद्य इत्वा परिलोकान् परिदिशा परिष्वः ऋतस्य तन्तुम् विततम् विजृत्य तदपश्यत्तदभवत्तदासीत् सदश सपतिम्भूत प्रियम्यं स निधा माश सिख गुस्वाह जम मेधा देंगणा पितरशोपासतेमेधयाग्ने मेधा विनाकु स्वाहाम वरुणो दधा मेधा, मेधा प्रजापति मेधामिन्द्र चव्वायुश्च मेधान्धाता ददातु मे स्वाहा इदम् ये ब्रह्मचक्षत्राञ्चोभय श्रियामश्नुताम् मयि देवा दधतु श्रियामुत्तममां तस्यै ते स्वाहा इति द्वात्कृषा हरि ओम्